शङ्करम् ये ऐश्वर्ये स्थितोऽपि प्रणतबहुफले यः स्वयम् कृत्तिवासाः कान्ता सम्मिश्र देवोली अविषयमनसा यः पुरस्ताद्यतीना स्य कृत्स्नम् जगदपि तनुभिः बिभ्रतो नाभिमानः सन्मार्गारोकनाय का व्यपनयतु स वः तामसीम् वृत्तिमीशहा शिवानन्दनगरी स्तोत्रम् कलाभ्याम् शुशुडालङ्कृतशिकलाभ्याम् निजतपफलाभ्याम् भक्तेषु प्रकटितफलाभ्याम् भवतु मे शिवाभ्याम् अस्तोकत्रिभुवनशिवाभ्याम् कृति पुनर्भवाभ्याम् आनन्दस्फुरदनुभवाभ्याम् दलरन्ती शम्भो त्वच्चरितचरितः किल्बिषरजो दलन्ती दीगुल्या सरलिषु पतन्ती विजयता दिशन्ती संसार भ्रमण परितापोपशमनम् वसन्ती वच्चेतोर्दुवि शिवानन्दलहरी रयैवेद्यम् हृदयम् त्रिपुरहर वाद्यम् त्रिनयनम् जटाबारोदारम् चलदुरगहारम् मृगधरम् महादेवम् देवम् सदयभावम् पशुपतिम् चिदालम्बम् साम्बम् शिवमति विडम्बम् सहस्रम् वर्तन्ते जगदि विबुधाः क्षुत्रफलदा न मन्ये स्वप्ने वा हरि हरिब्रह्मादीनामपि निकटभाजाम सुलभम् चिरम् व्याजे शम्भो शिव तव मम दाम्बोजवचनम् स्मृतौ शास्त्रे वैद्ये शकुनकविता गाणपणितौ पुराणे मन्त्रे वा दुतिनटनः शेषचतुरः कथम् राज्ञाम् प्रीतिर्भवति मयि पशुपते पशुम् माम् सर्वज्ञ प्रथित कृपया पालय विभो घटो वा अणुरपि च धूमोऽग्निरचलः पटो वा तन्तुर्वा परिहरयिणीम् घोरशमनम् मृदराकण्ठक्षोभम् महसि तरसा तर्कजसा पदाम्भोजम् शम्भो भज परमसौख्यम् व्रजसुरी स्ते पादाब्जे निवसतु वच स्तोत्र भणितौ करौ चायुरचाया श्रुतिरपि गदा कर्णन विधौ तव ध्याने बुद्धिर्नयनयुगलम् मूर्ति विभवे परग्रन्थान् परमशिवजाने जाने परमतः युरा बुद्धिः शुक्तौ रजतमिति काचाश्मणिमणिः जले वैक्षे क्षीरम् भवति मृगतृष्णा सुसलिलम् तथा देवभ्रान्त्या भ्रजति भवधन्यम् जडजनो महादेवेशम् त्वा मनसि चलमत्वा पशुपते गर्भीरे कासारे विषति विजने घोरविपिने विशाले शैले च भ्रमति कुसुमार्थम् चरमतिः समप्यैकम् चेतः सरसिजम् भवदे सुखेनावस्थातुम् जनैह न जानासि जाना विहो नरत्वम् देवत्वम् नगवनमृगत्वम् जगदा पशुत्वम् कीटत्वम् भवतु विहगत्वादिजनम् सदा त्वत्पादाब्जस्मरणपरमानन्दलहरी विहारसक्तम् चेत् हृदयमि गतिम् तेन वपुषा वटुर्वा गेही वा यदिरपि जटी भव किम् तेन भवति यदीयम् हृत्पद्मम् यदि भवदहीनम् पशुपते तदीयस्त्वम् शम्भो भवसि भवभारम् च वहसि गुहायाम् गेहे वा बहिरपि वने वादृशिकरे जलेवा वा पन्नौ वा वसतु वसते हिम्बदबलम् सदा यस्यैवान्तःकरणमपि शम्भो तव पदे चिरं ते योगोऽसौ स च परमयोगी स च सुखी असारे संसारे निरभजन दूरे जडधिया भ्रमन्तम् वामन्तम् परमकृपया पातुमुचितम् मदुरन्यः को दीना तव कृपण रक्षा किलिमुपः त्वदन्यः को वा मे त्रिजगति शरण्यः पशुपले प्रभुस्त्वम् दीनानाम् खलु परमबन्धुः पशुपते प्रमुख्योऽहम् देशामि किमुद बन्धुत्वमनयो त्वयैव क्षन्तव्या शिव मदपराधास्य सकला प्रयत्नात् कर्तव्यम् मदवनमियम् बन्धुसरणिः उपेक्षा नमोचे चेत् किं न दुराशा भूयिष्ठा विधिलिपि मशक्तो यदि भवान् शिरस्तद्वैधात्रम् न खलु सुवृत्तम् पशुपते कथं वा निर्यतनम् करणखण्डेनैव लुलितम् जल दीर्घायुर्भवतुवता तत्परशि चतुष्क संरक्ष्य सकल्यम लिखित कौवा पातिशिवे कटाक्ष व्यापार स्वयं चीना भो प्रसन्नेऽपि स्वामिन् भवदमलवादाब्जयुगलम् कृतम् पश्येयम् माम् स्थगयति नमः संरमजुषा विविलिम्पानाम् श्रेणिर् निज त्वमेको लोकानाम् परमफलदो दिव्यपदवी वहन्तस्त्वन्मूला पुनरपिभजन्ते हरिमुखा कियद्वा दाक्षिण्यम् दव शिव मदाशा च कियतिक्षाम् वहसि करुणा उरितदृशा गुरुराशा ष्टे दुरन्तगृहद्वार कटये दुरन्ते संसारे दुरितनिलये दुर्खजनके मदायासम् किम् न व्यपनयसि कस्योपहृदये वदेयम् प्रीतिश्चेत् तव शिव कृतार्चाः स्वसा मोहाडव्याम् चरति युवतीनाम् कुच गिरौ नडत्याशाखास्फटति झटिति स्वैरभितः त्वायिन् भिक्षो मे हृदयमजन्तजबलम् दृढम् भक्त्या बद्धा धृतिस्तम्भाधाराम् दृढगुणनिबद्धाम् सगमनां विचित्राम् पद्माढ्याम् प्रतिदिवस सन्मार्गघटिता सुस्रारे मर्चेतस्फुटतटकुटीम् प्राप्य विशदा जयस्वामिम् दत्या गणैः सेवित विभो प्रडाभाद्यहरण परतन्त्रो धनि गृहे प्रवेशद्युत्तः सन् ब्रह्मपति बहुधा तस्करपते इमम् चेतश्चोरम् सहे शङ्कर विभो तवादीनम् कृत्वा मयि निरपराधे कुरु कृपा करोमि त्वत्पूजा सपदि सुखदो मे भव विभो विधि त्वम् विष्णुत्वम् दिशि परमिति पुनश्च त्वाम् दृष्टम् दिविभुवि पक्षि मृगता अदृष्ट्वा तत्खेदम् राम्य सहे शङ्कर विभो कदा वा कैलासे कनकमणि सौधे वसन् शम्भोरग्रे स्फुटघटित विभो साबम्ब स्वामिन् परम कल्पा कलः तबैर्ब्रह्मादीना जय जय वचोभिर्नियमिना गणानाम् केलीभिर् मलय महोक्षस्य ककुदी शिवम् नीलग्रीवम् त्रिनयनमुमाश्लिष्टवशम् कला त्वाम् पश्येयम् करधृतमृगम् खण्डपरशुम् कदावा त्वाम् दृष्ट्वा गिरिश तव भव्याम् ग्रियुगलम् गृहीत्वा हस्ताभ्याम् वहन् सर्वाशिष्याग्नाय स्फुटजलज गन्धान् परिमला अलभ्याम् ब्रह्माद्यैः नुभविष्यामि हृदये करस्थे हेमाद्रौ गिरिश निकटस्थे धनपतौ गृहस्थे सुरभुजा अमरसुरभि चिन्तामणिगणे शिरस्थे जीतांशौ चरणयुगलस्थेखिलुभे कमर्थम् दास्येयम् भवतु भवदर्थम् मम मनः सारू्यम् तव पूजने शिव महादेवेति सङ्कीर्तने सामीप्यम् शिवभक्ति दुर्यजनता साङ्गत्य सम्भाषणे सा च चराचरात्मकतनु भवानीफले सायुज्यम् मम सिद्धमत्र भवति स्वामिन्धातोऽस्म्यहम् त्वत्पादाम्बुजमर्चयामि परमम् त्वाम् चिन्तयाम्यनहम् त्वामीशम् शरणम् व्रजामि वचसा त्वामेव याचे विभो ीक्षाम् मे दिश साक्षुषीम् सकरुणा दिव्यै स्थिरम् प्रार्थिता शम्भो लोकगुरो मदीय मनसः सौख्योपदेशम् कुरुद्धूतविधौ सहस्र करता पुष्पार्चने विष्णुता गंधे गत्मदचनेर्गीर्मुाध्यक्षता पात्रे कांचन गर्भदास्ति मयि चेले चूड़ा मे शुश्रूषा कर वे पशुते स्वामी त्रिलोकी गुरा नालम्बा परमोपकारकमिदम् त्वेकम् पशूनाम् पते पश्यन् कुक्षिगताञ्चराचरगणान् बाह्यस्थितान् रक्षितुम् सर्वामद्यपलायनौषधमति ज्वालाकरम् भीकरम् निक्षिप्तं गरलं गले नगलितं। नोदीर्ण मेवालग्र सकारादीय शेल कसवाया दृष्ट किंच कलेतकल किंपक्वूफल जिह्वाया निहित सिुटिका कंठदेशे मृद किम् ते लीलमणिर्विभूषणमयम् शम्भो महात्मन्वर नालम् वा सगृदेव देव भवतः सेवानदिर्वानुदिः पूजा वा स्मरणम् गता श्रवणम्यालोकनम् नुसरणायासेन किम् लभ्यते रावा मुक्तिरितः कुतो भवति चेत् किम् प्रार्थनीयम् सदा किम् रोमस्तव साहसम् पशुभये कस्यास्ति शम्भोऽभवत् धैर्यम् चेत् समात्मनस्तिरियम् चाण्यैकथम् लभ्यते ब्रश्यद्देवगणम् प्रसन्नगणम् नश्यत् प्रपञ्चम् लयम् पश्यन् निर्भय एक एव विहरति आनन्दसान्द्रो भवान् योगक्षेमधुरन्धरस्य सकलः श्रेयःप्रसोद्योगिनो दृष्टा दृष्टमदोपदेशकृतिनो बाह्यान्तरव्यापिनः सर्वज्ञस्य दयाकरस्य भवतः किम् वेदितव्यम् मया शम्भो त्वम् परमान्तरङ्ग इति मे चित्ते स्मराम्यन्वहम् भक्तो भक्तिगुणावृते ृगा पूर्णे प्रसन्ने मनः कुम्भेदाम्बदवाङ् पल्लवयुगम् संस्थाप्य संवित्फलम् स स त्वम् मन्त्रमुदीरयन् निजशरीराकारशुद्धिम् वहन् पुण्याहम् प्रकटीकरोमि नः सङ्घासमबुध्यन्मनो मन्थानम् दृढभक्तिरज्जुरयिदम् कृत्वा मधित्वा ततः सोमम् कल्पतरुम् सुपर्वसुरयिम् चितामणिम् धीमता नित्यानन्द सुधा निरन्तरमा सौभाग्यमातन्वते प्राक् पुण्याचलमार्गदर्शित मूर्ति प्रसन्नः शिवः सोमः मोचकः च पुष्कर लक्षितो भवति प्रागल्भ्येन विजृम्भते सुमनसा वृत्तिस्तदा जायते धर्मो मे चतुरङ्घ्रिकः सुचरितः पापम् विलाशम् विगलिताः कामक्रोधमदादयोल्लिताः कालाः सुखाविष्कृताः ज्ञानानन्दमहौषधिः सुफलिता कैवल्यनाथे सदा मान्ये मानसपुण्डरीकनगरे राजावतंसे स्थिते दीयन्त्रेण वचोघटेन कविता कुल्योपकुल्याक्रमैः आनीतैश्च सदा शिवस्य चरिताम्बो राशिव्यामृतै ृ केदारयुताश्च भक्तिकलमाः साफल्यमातन्मते दुर्भिक्षान् मम सेवकस्य भगवन् विश्वेश वीडिः कुलः पार्वोत्पादविमोचनाय मृत्युञ्जय श्रोत्रध्यान नदी प्रदक्षिण सपर्यालोकनाकर्णने जिह्वाजित्वशिरोङ्घृहस्तनयनः प्रार्थितो मामाज्ञापय मामे खालम् घनधृतिः प्राकार उद्यद्गुणः तोमनश्चाप्तबलम् घनेन्द्रियचयो द्वारा निदेहे स्थितः विद्यावस्तु समृद्धिः इत्यखिल सामग्री समेते सदा दुर्गादिप्रियदेव मामकमनो दुर्गे निवासम् कुरु आगच्छ त्वम् इतस्ततो गिरिशभो मय्येव वासम् कुरु स्वामिन्नादिकिरात मामकमनः कान्तारसीमान्तरे वर्तन्ते बहुषो मृगामदजुषो मात्सर्यमोहादयः तान् हत्वा मृगया विनोदरुचिता लाभम् च सम्प्राप्स्यसि करलग्नमृहः करेन्द्रबन्धो गिरीशो विशलाकृति कुहरे पंच मुखोस्ट चतुशा की शिकातरैसे शाश्वते सौख्यादि भेदिनी सुधाली तः पक्षिशिकामणे त्यजवृता सञ्चारमन्यैरलम् नित्यम् शङ्करपादपद्मयुगली विहारं कुरु आकीर्णे नखरादिकान्ति विभवैः उद्यत्सुधा वैभवैः आधौते प्रिय पदरागल हमस प्रजैराश्रि नि भक्तिवध गणशेच्छा विहारु्वानस राजंस गिरीजाघ्रिशातरे ्यानवसन्तसङ्गिनिहृद् आरामेघीर्णच्छदाः श्रस्ता भक्तिलताच्छटा विलसिताः पुण्यप्रपालश्रिताः दीप्यन्ते गुणगोरकजपवचः पुष्पाणि सद्वासना ज्ञानानन्द सुधानन्द लहरी संवित् फलाभ्युन्नतिः निजानन्दरसालयम् सुरमुनिः स्वान्दाम्बुजाताश्रयम् स्वच्छम् व्रजमना हंसावतम् स स्थिरम् किम् शुद्धाश्रय पल्वल भ्रमण सञ्जातश्रमम् प्राप्स्यसि आनन्दामृतपूरिता हरपदाम्बोजालवालोध्यता शैलापर्णमुपेत्य भक्तिलतिका शाखो उच्चैर्माणस कायमाण पटले आक्रम्य निष्कल्मषा नित्याभीष्टबलप्रदा भवतु मे सत्कर्म संवर्धिता सञ्ज्यारम्भ विजृम्भितम् श्रुतिशिरस्थानान्तराधिष्ठितम् सप्रेम भ्रमराभिरामम सकृते सद्वासनाशोभितम् भोगीन्द्राभरणम् समस्त सुमनः पूज्यम् सेवे श्रीगिरिमल्लिकार्जुन महालिङ्गम् शिवालिङ्गितम् टक्करिमथ ग्राही स्फुरन् माधव आह्लादो नादयितो महासित वपुः पञ्चेषु नाचारुरः सपक्षस्तु मनोवनेषु स पुनः साक्षान्मदीये मनो राजीवे भ्रमराधिपो विगरताम् श्रीशैलवासी विभुः कारुण्यामृतवर्षिणम् घनविपग्रीष्मच्छिता कर्मठम् विद्या सस्य नृत्यद्भक्तमयूरमद्रिनिलयम् सञ्चज्जडामण्डलम् शम्भो वाञ्छति नीलगन्धरसदां मे मनश्चातकः आकाशेन शिखि समस्तमणिनाम् नेत्रा कलापील अनुग्राही प्रणोपदेशनिनदैः के कीति योगीयते श्यामाम् शैलसमुद्भवाम् घनरुचिम् दृष्ट्वा मुदा वेदान्तोपवने विहाररसिकम् तम् नीलकण्ठम् भजे सन्ध्या धर्मदिनात्यया हरिहराभारप्रभूतानक ध्वानो वारिगर्जितम् द्विषता दृष्टिच्छटा चञ्चला विभक्तानाम् परितोषमास्म विततिः वृष्टिर्मयूरी शिवा यस्मिन्नुज्ज्वलताण्डवम् विजयते तम् नीलकण्ठम् भजे आद्यायामितरेदसे श्रुतिमदैर्वेद्याय साध्यायते विद्यानन्दमयात्मने द्रियगदः संरक्षणोद्योगिने येयाखिलयोगिभिः सुरगणैः येयाय मायाविने सम्यक्ताण्डवसम्भ्रमाय जडिने सेयं नतिः शम्भवे नित्याय त्रिगुणात्मने पुरले कात्यायनी सत्यायादि सत्यायादिकुटुम्बिने मृमणः प्रत्यक्षचिन्मूर्तये मायासृष्टजगत्रयाय कला आम्नाय सञ्चारिणे सायम् ताण्डव सम्भ्रमाय जटिने सेयं नदिशम्भवे नित्यम् सोदर पोषणाय सकलान् उद्दिश्य विताशया व्यर्थं पर्यटनम् करोमि भवतः सेवाम् न जाने विभो। भो मज्जन्मान्तर पुण्यपाकबलः त्वम् सर्व सर्वान्तरः तिष्ठस्येव वा पशुपते ते रक्षणीयोऽस्म्यहम् एको वारिजबान्धवः क्षितिन भो व्यार्थम् तमो मण्डलम् भित्त्वा लोचनगोचरोऽपि भवति त्वम् कोटिसूर्यप्रभः वेद्यः किन्न भवस्य हो तत्सर्वं व्यपनीय पशुपते साक्षात् प्रसन्नो भव हंस पद्ममनम् समिच्छति यथा नीलाम्बुदम् जातकः कोकः कोकनद प्रियम् प्रतिदिनम् चन्द्रम् च चेदो वाञ्छति मामकम् पशुपते चिन्मार्ग मृग्यम् विभो गौरीनाथवत्पदाब्जयुगलम् कैवल्यसौख्यप्रदम् रोधस्तोयघृतश्रमेण पथिकः छायान्तरो भीतस्वस्थ गृहम् गृहस्थमतिथिः दीनः धार्मिकम् दीपम् सन्तमसाकुलश्च शिखिरम् शीतावृतस्त्वम् तदा चेतः सर्वभयापहम् रज सुखम् शम्भोः पराङ्गोरुहम् अङ्कोलम् निज बीज सन्ततिरयस्कान्धोपलम् सूचिका साध्वीयैज विभुं लता सिन्धुः सरिद्वल्लभम् प्राप्नोति ह यथा तथा पशुपतेः आदारविन्दद्वयम् चेतो वृत्तिरूपेत्य तिष्ठति सदा सा भक्तिरित्युच्यते आनन्दाश्रुभिरातनोति वाचा शङ्खमुखे स्थितैश्चर पूर्तिम् चरित्रामृतैः रुद्राक्षैर्भसितेन देव वपुष रक्षाम्भवद्भावना पर्यङ्गे विनिवेश्य भक्तिजननी रक्षति गावर्तितपादुका पशुपतेः अङ्गस्य कूर्चायते तण्डूषाम्बुविशेषनम् पुररिपोः दिव्याभिषेकायते किञ्चिद् भक्षित मांस शेषकबलम् रव्योपहारायते वक्ति किम् न वनचरो भक्तावतंसायते वक्षस्ताटनम् अन्तकस्य कठिनापस्मार संवर्दनम् भूवृत् पर्यटनम् नमः सुरशिरः कर्मेदम् मृदुलस्य गौरीपते मच्चेतो मणिपादुका विहरणम् शम्भो सङ्गीकुरु भक्षस्ताडन शङ्कया विचलिता वैवस्वतो निर्जरः कोटीरोज्ज्वलरत्न नीराचरणम् कुर्वते दृष्ट्वा मुक्तिवधूस्तनोति विभृदाश्लेषम् भवानी मदे मेतस्तव पादपद्मभजनम् तस्येय किम् दुर्लभम् क्रीडार्थम् सृजसि प्रपञ्चमखिलम् क्रीडा मृगास्ते जनाः <NDA> यत्कर्माचरितम् मया च भवतः प्रीत्यै भवत्येव तत् शम्भो स्वस्य कुतूहलस्य करणम् न चेष्टितम् तस्मान् मामक रक्षणम् पशुपते कर्तव्यमेवत्वया। त्वया <NDA> मरुदपरिदोष बाष्पूर पुटपुलकाङ्किकचारु भोगभूमिम् शिरपद फलकाङ्क्षि सेव्यमाना परम सदा शिव भावनाम् प्रपद्ये अमित मृद मृदम् विमलभवत्पदकोष्ठमावसन्ती सदय पशुपते कुटिलचरत्वम् च नास्ति मयि देव अस्ति यदि राजमौले भवदावरणस्य नास्ति किम् पात्रम् रहसि रहसि स्वतन्त्र बुद्ध्या बलिवसि त्वम् सुलभ प्रसन्नमूर्ति अगणिमलदायक प्रभुर्मे जगदधिको विराजशेखरोऽस्ति आरुढ भावचाप युक्तै शिव स्मरणबाणगणोघैः निर्जित्य किल्बिषरिपून् विजयी सुधीन्द्रः सानन्दमापगति सुस्थिर राजलक्ष्मीजनेन समवेक्ष्य समः प्रवेशम् मिलिता महाबलिबिरीश्वररामम मन्त्रैः पादपद्ममिहते शिव ते कृतार्थाः भूतारतामुदवर्जरपेक्षया श्री भूतार एव किमतः सुमते लभस्व वेदोद्युक्तैर्दिव्यगन्धैरमन्दैः आशाटीकस्य पादारवीन्द्रम् चेतः पेटीम् वासिताम् मे तनोतु कल्यायम् सरसचित्रगतिम् सवेगम् सर्वेङ्गिरज्ञमनघम् ध्रुवलक्षणाड्यम् चेतस्तुरङ्गमधिरुह्य चरस्मरारे नेतः समस्त जगताम् वृषभाजिरूढ भक्तिर्मजेश पदपुष्करमा वसन्ति कादम्बिनीव कुरुते परितोषवर्षम् सम्पूरितो भवति यस्य मनस्तटागः सम्मोहितेव शिव मन्त्र जपेन विन्दे सदुरचार विधिष्वनुबोधिताम् सविनयाम् सुहृदम् सदुपाश्रिताम् मम समुद्धर बुद्धिमिमाम् प्रभो वरगुणेन नवोढ वधूमिवम् योगि मनः सरोजदल सञ्चार क्षमस्त्वत्क्रमः शम्भो येन कथम् कठोरयमराट् वक्षः कपाटक्षतिः अत्यन्तम् नृतलम् हामे हा मे मनश्चिन्तयति एतल्लोचन गोचरम् कुरु विभो हस्तेन संवाहये एष जलम् मनोऽस्य कठिनम् तस्मिन्नटा रक्षरायै गिरिशीम् निकोमलपद न्यासः पुराभ्यासितः नो चेद् दिव्यगृगान्तरेषु सुमनस्तर्पेषु विद्यादिषु प्रायः सत्सुशिलातलेषु शंभोकिमर्थं शम्भो कञ्चित् कालमु मामहेश भवतः पादारविन्दार्चनैः कञ्चिद् ध्यानसमाधिभिश्च नदिभिः कञ्चित् कथाकर्णनैः कश्चित्कञ्चिदवेक्षणैश्च नुतिभिः कञ्चिद्दशामीदृशी यः प्राप्नोति मुधा त्वदर्विदमना जीवन स मुक्त खलु बाण वृषमपुषा भार्पते घोणिविता मृतंग महता चेद्यादि दधा नयनापण गोहरिः पूज्यात् पूज्यतरस्य एव नियोधिकः जनरमृतियुतानाम् सेवया देवतानां न भवति शुकलेशः संशयो नास्ति तत्र अजनि मृतरूपम् साम्बमीशम् भजन्ते यैः परमसौख्यम् ते हि लभन्ते शिव तव परिचर्या सन्निधानाय गौर्या भव मम गुणधुर्या बुद्धिकन्याम् प्रदास्ये सकल भुवन बन्धो सचिदानन्द सिन्धो सर्वदा संवसत्वम् अथन दक्षो नैव पातालभेदि न नचवन वन मृगयाया नैव लुब्ध प्रवीणः अशन कुसुम भूषा वस्त्रमुख्या सपर्या कथय <खत्त्तिया>, कथन <खत्तिया, खत्तिया> कल्पयाली इन्दुमौळे पुरा द्रव्यसमृद्धय विरचिताः पूजाम् कथम् कुर्महे पक्षित्वम् न च न प्राप्तम् मया दुर्लभम् जाने मस्तकमन्ध्रिवल्लवमुमा जाने न तेऽहं विभो न ज्ञातं हि पितामहेन हरिणा त्रत्वेन तद्रूपिणाम् फणीकलापो वसनम् चर्म च वाहनम् ममोक्षः मम दास्यसि किम् किमस्ति शम्भो तव पादाम्बुजभक्तिमेव देहि यथा कृताम्बो निधिसेतुवन्दनः करस्थलादः कृतपर्वताधिपः भवानि ते लङ्घित पद्मसम्भवः तदा शिवार्चास्तव भावनक्षमः नदिभिर्नुदिभिस्त्वमेष पूजा विधिविद्यान समाधिभिर्न तुष्टः धनुषा मुसलेन वदते प्रीतिकरम् तथा करोमि वचसा चरितम् वदामि शम्भो अहमुद्योगविधा सुते प्रसक्तः मनसा कृतिमीश्वरस्य सेवे शिरसा चैव सदा शिवम् नमामि आद्या विद्याघृद्गदा निर्गदासीत् विद्या सेवे नित्यं श्रीकरं त्वत्पदाब्जम् भावे मुक्तेर मुक्तेर्भाजनं राजमौले दूरीकृतानि दुरितानि दूरी दुरक्षराणि दौर्भाग्यदुःखदुरहङ्कृति दुर्वचांसि सारं त्वदीयचरितं नितरां पिबन्तं गौरीशमामिघ समुद्धर सत्कटाक्षैः सोमकलादर कोमलघनगन्धरे महामहसी स्वामिनि गिरिजानाते मामकहृदयं निरन्तरं रमतां। सारसना तेनयने नयने तावेव करो स एव प्रतीक्षेते सदार्चतस्मरति अतिमृदुलौ मम चरणौ अतिकठिनम् ते मनो भवानीश इति विचिकित्सा सन्त्यज कथमासीत् गिरौ तथा प्रवेशः ङ्कुशेन निवृतम् रहसादारष्यभक्तिशृङ्खलया पुरहरचरणालाने हृदयमदेवम् वदा न चिद्यन्त्रैः मदवाने शमनः करी गरीयान् परिगृह्य नयेन भक्तिरज्वा परमस्थानुपदम् दृढम् नयाम् सर्वकारयुक्ता सरलपदयुता साधुवृत्तां सुवर्णा सद्भिः सन्दूयमाणा सरसगुणयुताम् लक्षितां लक्षणाढ्या बुद्ध्यद्भूषविशेषाम् उपगतविनया द्योतमानार्थरेखा कल्याणी देव गौरी प्रिय मम कविता कन्यकाम् त्वम गृहाण इदम् ते न्यूतनम् वा जलधे ौ तिर्यग्रूपम् शिरोरुधिया हरिद्ब्रह्माणलोपौ दिलिपु विचरन्तौ श्रवयुतौ कथं शम्भो स्वामिन् अथय मम वेद्योऽस्ति पुरतः स्तोत्रे नालाहम् प्रभजस्मिन् मृषा प्रसङ्गसमये त्वामग्रगण्यम् विदुः माहात्म्याग्रविचारणप्रकरणे धानादृशस्तोऽभवत् दूतास्त्वाम् विरुतो धमफलम् शम्भो सेवका